कृष्णयजुर्वेदे क्रमपाठे षष्ठकाण्डे चतुर्थः प्रश्नः प्रारम्भः oh. ः प्रजापतिप्रजाः प्रजापतिप्रजापतिः प्रजा असृजता प्रजादिताः एवासृजत असृजयत् यदुपजः उपयजमुपयजति उपयज इत्युपायजः उपयजति प्रजाः उपयजतेत्युपायजति प्रजा एव प्रजादिजाः एव तत् तद्यजमानः यजमानसृते सृजते जघनार्थात् जघनार्थाद्व जघनार्थात् यजघनार्थात् अवद्यति इति जघनार्थात् जघनार्थाद्धि जघनार्थादिजघनार्थात् हि प्रजाः प्रजा प्रजायन्ते प्रजा इति प्रजायन्ते स्थविमतः प्रजायन्त इति प्राजायन्ते स्थविमतो वा यदि स्थविमतः स्थविमतो हि हि प्रजाः प्रजा प्रजायन्ते प्रजा इति यन्ते असम्भिन्दन् न वा असम्भिन्दन् इत्यसं भिन्दन् अपवदि इति प्राणाम् प्राणानामसम्भेदाय प्राणानामिति प्राणानाम् असम्भेदाय न असम्भेदाय इत्यसंभेदाय न पर्यावर्तयति पर्यावर्तयति यत् पर्यावर्तयति इति पर्यावर्तयति यत्पर्यावर्तये पर्यावर्तये तदावर्ताः पर्यावर्तयेदिति पर्यावर्तये प्रजाः प्रजाग्राहुकः प्रजा यदि प्राजाः ग्राहुकः स्यात् स्यात् समुद्रम् समुद्रम् गच्छ इत्याह रेतः रेत एव तत् तद्दधाति दधात्यन्तरिक्षम् अन्तरिक्षम् गच्छ यच्छस्साः साहेति इत्याह अन्तरिक्षेण अन्तरिक्षेणैव एवास्मै अस्मै प्रजाः प्रजाः प्रजा इति प्राजाः प्रजनयति जनयत्यन्तरिक्षम् अन्तरिक्षकं हि यनु अनुप्रजाः प्रजाः प्रजायन्ते प्रजा इति प्राजाः प्रजायन्ते देवम् प्रजायन्त इति प्राजायन्ते एवं सवितारम् सवितारम् गच्छ गच्छ साहाहेरि इत्याह आह सवितृप्रसूदः सवितृप्रसूद एव सवितृप्रसूदय इति सवितृप्रसूदः एवास्मै अस्मै प्रजाः प्रजाः प्राजाः प्रजनयतिहोरात्रे अहोरात्रे गच्छ अहोरात्रे इत्यहः रात्रे गच्छ स्वाहा स्वाहेति इत्याह आहाहोरात्राभ्याम् अहोरात्राभ्यामेव अहोरात्राभ्यामित्यह रात्राभ्याम् एवास्मै अस्मै प्रजाः प्रजाप्र प्रजा इति प्राजाः प्रजनैरित्यहोरात्रे अहोरात्रेः अहोरात्रे इत्यहोरात्रे शनु अनुप्रजाः प्रजाः प्रजायन्ते प्रजा इति प्राजाः प्रजायन्ते मित्रावृणौ प्रजायन्ते इति प्रजायन्ते मित्रावर्णौ मृच्छ मित्रावर्णाविति मित्रावृणौ गच्छ स्वाहाः स्वाहेति इत्याह आह प्रजासु प्रजासेव प्रजास्विति प्राजासु एव प्रजातासु प्रजातासु प्राणापानौ प्रजातास्वितिप्राजातासु प्राणापानौ दधाति प्राणापानाविति प्राणापानौ दधाति सोमम् सोमम् गच्छ गच्छस्वाहा स्वायति इत्याह आह सौम्याः सौम्या देवतया देवतया प्रजाः प्रजायज्ञम् प्रजा इति प्राजाः यज्ञम् गच्छ गच्छस्वाहा साहेरि इत्याह आह प्रजाः प्रजा एव यज्ञयाः यज्ञयाः करोति करोति छन्दागंसि छन्दागंसि गच्छ गच्छस्वाहा साहेरि इत्याह आह पशवः वै वै छन्दागंसि छन्दाकंसि पशून् पशूनेव एवा वा अवरुन्धे वृन्धे द्या वा गच्छ या वा पृथिवी विद्या वा पृथिवी रक्षस्वाः स्वाहेति इत्याह आह प्रजा एव प्रजा इति प्राजाः एव प्रजाताः प्रजाताद्या वा पृथिवीभ्याम् प्रजातादिप्राजाताः या वा पृथिवीभ्यामुभयतः द्यावापृथिवीभ्याम् दिद्यावा पृथिवीभ्याम् उभयतपरि परिगृह्णाति गृह्णाति तभः नभो दिव्यम् दिव्यम् गच्छ गक्षस्वाः सारयति इत्याह आह प्रजाभ्यः प्रजाभ्य एव प्रजाभ्य इति प्राजाभ्यः एव प्रजाताभ्यः प्रजाताभ्यो वृष्टिम् प्रजाताभ्य इति प्राजाताभ्यः वृष्टिम्नियच्छति यच्छत्यग्निम् अग्निम् वैश्वादरम् वैश्वादरम् यच्छ यच्छस्वाहा स्वाहेरि निद्राह आह प्रजाः प्रजा एव प्रजा इति एव प्रजाताः प्रजातास्याम् प्रजाता इति प्राजाताः तस्याम् प्रति प्रतिष्ठापयति स्यति प्राणानाम् प्राणानां वै प्राणानामिति प्राणानाम् वा एषः एषो वा अवद्यति यदि यः यो वद्यति अवद्यति कुदस्य अवद्यति इत्यवद्यति कुदस्य मनः मनो मे मे हार्दिहा हार्दि यच्छ यच्छेति इत्याह आह प्राणानिरिप्राणान् एव यथास्थानम् यथास्थानमुप यथास्थानमिति यथास्थानम् उपह्वयते क्वयते पशोः पशोर्वै वा आलब्धस्य आलब्धस्य हृदयम् आलब्धस्येत्यालब्धस्य हृदयघं शुक् शुगृच्छति गच्छति सा सा हृदयशूलम् हृदयशूलमभि हृदयशूलमिति हृदयशूलम् अभिसं समेति एद्य यत्पृथिव्याम् पृथिव्यागं हृदयशूलम् तदेशूरमद्वासयेत् तदेशूति हृदया शूलम् उद्वासयेत् पृथिवीम् उद्वासयेसयेत् पृथिवींशुरा शुचार्पयेत् कर्पयेद्यत् यदप्सु अप्सुपः अप्सुत्यपसु अपश्रुता शुचार्पयेत् तर्पयेत् शुष्कस्य शुष्कस्य चार्द्रस्य च सन्धौ सन्धावत् सन्धाविसन्धौ उद्वासयतिभयस्य शान्तिः शान्तित् विष्यार्थम् अन्ध्यायेत् ध्यायेच्छुता शुतैव एवैनम् येन वर्पयति अर्पयति इत्यर्पयति देवा वै वै यज्ञम् यज्ञमाग्नीध्रे आग्ने ध्रेवि आग्ने ध्रैत्याग्ने इन्द्रे जन्त यदत्यशिष्यत अत्यशिष्य तत् अत्यशिष्यते तदब्रुवन् अब्रुवन् वसतु वसतुमिति तद्वसतीवरीणाम् वसतीवरीणाम् वसति वरित्वम् वसति फलित्वम् तस्मिन् वसति फलित्वमिति वसती वरीत्वम् तस्मिन् प्रातः प्रातर्न न सं समशक्नुवन् अशक्नुवन्तर् तदप्सु अप्सु प्र अप्सुत्यपुसु प्रावेशयन् अवेषयन्ताः ता वसदेवरीः वसदेवरैरभवन् अभवन् वसुदेवरीः वसदेवरीर्गृह्णाति गृह्णाति यज्ञः यज्ञो वै वै वसदेवरीः वसदेवरीर्यज्ञम् यज्ञमेव एवारभ्य आरभ्य गृहीत्वा आरभ्येत्य आरभ्य गृहीत्वोप उपवसति वसति यस्य यस्यागृहीताः अगृहीता अभि अभिनिम्रोचयेत् निम्रोचेदनारब्धः निम्रोचेदिति निम्रोचयेत् अनारब्धोऽस्य अनारब्धयज्ञना आरब्धः अस्य यज्ञः यज्ञस्यात् याद्यज्ञम् यज्ञम् ज्योतिष्या वा गृह्णेयाद् गृह्णेयाधिरण्यम् हिरण्यम् वाऽवधाय अवधाय सशुक्राणाम् अवधायज्ञवधाय सशुक्राणामेव सशुक्राणामिति स शुक्राणाम् एव गृह्णाति गृह्णाद्यः यो वा ब्राह्मणः ब्राह्मणो बहुयाजी बहुयाजी बहुयाजीति बहुयाजी तस्य कुम्भ्यानाम् कुम्भ्यानाम् गृह्णेयाद् गृह्णेयात् सह स हि हे गृहीतवसदेवरीको वसदेवरीः गृहीतवसदेवरीकैति गृहीता वसदेवरीकः वसदेवरीयन्गृह्णाति गृह्णाति पशवः पशवो वै वै वसदेवरीः वसदेवरीयः पशून् पशूनेव आरभ्य गृहीत्वा आरभ्येत्या आरभ्य गृहीत्वाप उपवसति वसति यत् यदन्वीपम् अन्वीपम् तिष्ठन् तिष्ठन् गृह्णेयात् गृह्ण्येयान् निर्मार्गृकाः निर्मार्गुका अस्माद् निर्मार्गुकाजिनिर्गुकाः अस्मात्पशवः पशवः स्युः सिः प्रदीपम् प्रदीपम् तिष्ठन् तिष्ठन् गृह्णाति गृह्णाति प्रतिरुध्य प्रतिरोध्यैव प्रतिरोध्ये प्रतिरोध्य एवास्मै अस्मै पशून् पशूम् गृह्णाति गृह्णाति इन्द्रः इन्द्रो वृत्रम् वृत्रमहन् अहं सः सोऽपः अपोभिः अभ्यम्रियत अम्रियत तासाम् तासाम् यत् यन्मेध्यम् मेध्यम् यज्ञयकम् सदैवम् सदेवमासीत् सदेवम् देवम् आसीत् तत् तदति अत्यमुच्यत अमुच्यतराः ता वहन्तीः वहन्तीरभवन् अभवन् वहन्तीनाम् वहन्तीनाम् गृह्णाति गृह्णाद्याः या एव मेध्याः मेध्या यज्ञाः सदेवाः सदेव आपः सदेव यदि तासामेव एव गृह्णाति गृह्णाति न अन्तमा वहन्तेः अहन्तीरति अतीयाद् याद्य यदन्तमाः अन्तमा वहन्तेः अहन्तीरतीयात् अतीयाद्यज्ञम् अतीयादित्यति इयाद् यज्ञमति अतिमन्येत मन्येत न स्थावराणाम् स्थावराणाम् गृह्णेयाद् गृह्णेयाद्वरुणगृहीताः वरुणगृहीता वै वरुणगृहीता इति वरुणागृहीताः वै स्थावराः स्थावरायत् यत्स्थावराणाम् स्थावराणाम् गृह्णीयाद् गृह्णीयाद्वरुणेन वरुणेन स्य अस्य यज्ञम् यज्ञम् ग्राहयेत् ग्राहयेद्वै वै दिवा दिवा भवति अपोरात्रिः रात्रिः प्रविशति विशति तस्मात् तस्मात्ताम्राः ताम्रावः आपो दिवा दिवा ददृश्ये ददृशेत् क्तम् नक्तम् भवति भवत्यपह अपोह अहः प्रविशति विशति तस्मात् तस्माच्चन्द्राः चन्द्रा आपः आपो नक्तम् तदृश्रे छायायै छायायै च आतपदः आतपदश्च आतपत इत्यातपदः सन्धौ सन्धौ गृह्णाति सन्धाविधि सन्धौ गृह्णात्यहोरात्रयोः अहोरात्रयोरेव अहोरात्रयोरित्यह रात्रयोः एवास्मै अस्मै वर्णम् वर्णम् गृह्णाति गृह्णादिहविष्मतेः हविष्मतेरिमाः इमा आपः आप इति इत्याह आह हविष्कृतानाम् हविष्कृतानामेव हविष्कृतानामिति हविः कृतानाम् एव गृह्णाति गृह्णादिहविष्मान् हविष्माकुम् अस्तु इत्याह आह सशुक्राणाम् सशुक्राणामेव सशुक्राणामिति स शुक्राणाम् गृह्णात्यनुष्टुभाः अनुष्टुभागृह्णादि अनुष्टुभैत्यनोष्टुभाः गृह्णादि वाग् वाै वा अनष्टग अनष्टग्वाचा अनष्टगेत्यनोष्टग वाचैवैनाः एनाः सर्वया सर्वया गृह्णाति गृह्णाति चतुष्पदया चतुष्पदयर्चा चतुष्पदये त्रि चतुः पदयाः गृह्णाति गृह्णाति त्रिः सम्पद्यन्ते गद्यन्ते सप्तपदा सप्तपदा सप्तपदेति सप्तापदाः शक्वरी पशवः पशवः शक्वरी शक्वरि पशून् पशूनेव एवाव अवरुन्धे रुन्धेऽस्मै अस्मै वै वै लोकाय लोकाय गार्हवत्यः गार्हपद्यः गार्हपत्य इति गार्ह पद्यः आधीयते धीयते मुष्मैः अमुष्मा आहवनीयः आहवनीयो यत् आहवनीयित्र आहवनीयः यद्गार्हपत्ये गार्हपत्य उपसादयेत् गार्हपत्य उपसादयेदस्मिन् उपसादयेदित्युपासादयेत् अस्मिन् लोके लोके पशुमान् पशुमान् स्यात् पशुमान् इति पशुमान् आहवनीयेऽमस्मिन् आहवनीय इत्या आहवनीये अमुष्मिन्लोके लोके पशुमान् पशुमान् स्यात् पशुमान स्यादुभयोः पशुमान पशुमान, स्याद उभयोरुप उपसाधयति साधयत्युभयोः उभयोरेव एवैनम् एनम् लोकयोः लोकयोः पृशमन्तम् पृशुमन्तम् करोति पशुमन्तमिति पशुमन्तम् करोति सर्वतः सर्वतःपरि परिहरति हरति रक्षसाम् रक्षसामपहत्यै अपहत्या इन्द्राग्न्ययोः अपहत्या इत्यपाहत्यैः इन्द्राग्न्ययोर्भागधेयैः इन्द्राग्न्ययोरिति इन्द्राग्न्ययोः भागधेयैस्थ भागधेयैरितिभागधेयैः स्थयति इत्याह आह यथा यजुः यथा यजुरेव एवैतत् एतदाग्नेध्रे आग्नेध उप आग्नेध्वरित्याग्नेयध्रे उपवासयति वासयत्येतत् एतद्वै वैयज्ञस्य यज्ञस्यापराजितम् अपराजितयत् अपराजितमित्यपराजितम् यदाग्ने आग्नेयत् आग्नेर्ध्वमित्याग्नेयद्धम् यदेव एव यज्ञस्य यज्ञस्यापराजितम् अपराजितम् तत् अपराजितमित्यपराजितम् तदेव एवैनाः येनामुप उपवासयति वासयति यतः यतः खलु खलु वै यज्ञस्य यज्ञस्य विततस्य विततस्य न विततस्येति वितततस्य न क्रियते क्रियते तत् तदनु अनुयज्ञम् यज्ञकं चरन्ते यत् यद्वहन्तीनाम् वहन्तीनाम् गृह्णाति गृह्णाति क्रियमाणम् क्रियमाणमेव तद्यज्ञस्य यज्ञस्य विषये विषये रक्षसाम् रक्षसामनन्वपचाराय अनन्वचाराय न अनन्वचारायत्यनो अवचाराय न हि ह्येताः एता ईलयन्ति ईलयन्त्या आ तृतीयसवनात् तृतीयसवनात् परि तृतीयसवनादिति तृतीयासवनात् परिशेरे शेरे यज्ञस्य यज्ञस्य सन्तत्यै सन्तत्या इति सन्तत्यैः ब्रह्मवादिना वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति सः त्वय् वा अध्वर्युः अध्वर्युः स्यात् स्याद्यः यः सोमम् सोम उपावहरन् उपावहरन्त्सर्वाभ्यः उपावहरन्नित्युपावहरन् सर्वाभ्यो देवताभ्यः देवताभ्योपावहरेत् उपावहरेदिति उपावहरेदित्युपावहरेत् इति हृदे हृदे त्वा इत्याह आह मनुष्येभ्यः मनुष्येभ्य एवैतेन एतेन करोति करोति मनसे मनसे त्वा त्वेति इत्याह आह पितृभ्यः पितृभ्य एव पितृभ्य इति पितृभ्यः एवैतेन एतेन करोति करोति दिवे दिवे त्वाः त्वा सूर्याय सूर्याय त्वा इत्याह आह देवेभ्यः देवेभ्य एवैतेन एतेन करोति करोत्येतावतीः एतावती वै त्वयि देवताः एव एवम् एनकम् सर्वाभ्यः सर्वाभ्य उपावहरति पुरा उपावहरति इत्युपा अवहरति प्रवदितोः प्रवदितो प्रातरनुवाकम् प्रवदितोरिति प्रावदितोः प्रातनुवाकमुपाकरोति अनुवाकम् उपाकरोति यावती आकरोति यावत्येव एव वाक् वाक्तामव अवरुन्धे रुन्धेपः अपोऽग्रे अग्रे अभिव्याहरति अभिव्याहरति यज्ञः अभिव्याहरति इत्यभिव्याहरति यज्ञो वै वा आपः आपो यज्ञम् यज्ञमेव एवाभि अभिवाचम् विसृजति सृजति सर्वाणि सर्वाणि छन्दागुंसि छन्दाकस्य नो अन्वाह आह पशवः पशवो पशूनेव एवा अपरुन्धे रन्धे गायत्र्या गायत्र्या ते तेजस्कामस्य तेजस्कामस्य परि तेजस्कामस्येति तेजः रामस्य परिदध्यात् दध्यात्ष्टुभाः तृष्टुभे इन्द्रियरामस्य इन्द्रियरामस्य जगद्या इन्द्रियरामस्येति इन्द्रियरामस्य जगद्या पशुरामस्य पशुरामस्य अनुष्टुभाः पशुरामस्येति पशुरामस्य अनुष्टुभाः प्रतिष्ठाकामस्य अनुष्टुभेत्यनौस्तुभाः प्रतिष्ठाकामस्य पन्द्या प्रतिष्ठाकामस्येत् प्रतिष्ठाकामस्य पङ्ग्यायज्ञामस्य यज्ञकामस्य विराजः यज्ञकामस्येति यज्ञाकामस्य विराजान्नकामस्य विराजेति अन्नकामस्य शृणोतु अन्नकामस्येत्यन्नाकामस्य शृणोत्प्रग्निः अग्निः समिधाः समिधाहवम् समिधेति संविध अपम्मे मणिति इत्याह आह सवितृप्रसूतः सवितर्प्रसूत एव सवितृर्प्रसूत इति सवितृप्रसूतः एव देवताभ्यः देवताभ्यो निवेद्य निवेद्यापः निवेद्येति निवेद्य अपोच्च अच्छ इति एत्यपः इष्य होतः इत्याह आहेशितम् इषितम् हि कर्म कर्म क्रियते क्रियते मैत्रावर्णस्य मैत्रावर्णस्य चमसाध्वर्यो मैत्रावर्णस्येति मैत्रावर्णस्य चमसाध्वर्यमा आद्रव द्रवेति इत्याह आहमित्रावर्णौ मित्रावर्णौ वै मित्रावर्णावित्रावर्णौ वापाम् अपाम् अपाम, नेतारौ नेतारौ ताभ्याम् ताभ्यामेव एवैनाः एनाच्छ अर्क्षैति एति देवीः देवीरापः आपो अपाम् अपान्नपात् नपादिति नित्याह आहाहुत्या आहुत्यैव आहुत्येत्याहुत्या एवम् निष्क्रिय निष्क्रिय गृह्णाति निष्क्रीयेतिनिः क्रिय गृह्णात्यथोः अथो हविष्कृतानाम् अथो इत्यथोः हविष्कृतानामेव हविष्कृतानामिति हविः कृतानाम् एवाभिहृतानाम् अभिहृतानाम् गृह्णाति अभिहृतानामित्यभिहृतानाम् गृह्णाति कार्षिः कार्षिरसि असीति इत्याह आह शमलम् शमलमेव एवासाम् आसामप अपप्लावयति प्लावयति समुद्रस्य समुद्रस्य वः ओक्षित्यै अक्षित्यावृत् उन्नये नय आह तस्मात् तस्मादद्यमानाः अद्यमानाः क्रीयमानाः क्रीयमानावह आभो न क्षीयन्द्रे क्षीयन्द्रे योनिः योनिर्वै वै यज्ञस्य यज्ञस्य चात्वारम् चात्वारम् यज्ञः यज्ञो वसदेवरीः वसदेवरीर्होदृचमसम् होदृचमसम् च होदृचमसमिति होदृचमसम् च महीन्त्रावर्णचमसम् महीन्त्रावर्णचमसम् च महीन्त्रावर्णचमसमिति मयीन्त्रावर्णचमसम् सद्गःस्पर्श सद्गस्पर्श संस्पर्श वसदेवरीर्व्यानयति व्यानयति यज्ञस्य व्यानयतीति वि आनयति यज्ञस्य सयोनित्वाय सयोनित्वाया सयोनित्वाय इति अथो स्वाद् अथो स्वादेव एवैनाः एनायोनेः योनैः प्राक् प्रजनयति जनय इत्यध्वर्यो अध्वर्यो वेदेः अध्वर्यो इत्यद्धर्यो अवेदपा अपा इति कृ आहूत उते एवमनन्नमुहौ अनन्नमुहृत उतेमाह इमाः पश्य पश्येति इति <player audio> वा वावैतत् एतदाह आहयदि यद्यज्ञिष्टोमः अग्निष्ट्रोमो जुहोति अग्निष्टोम इत्यज्ञेष्टोमः जुहोति यदि यद्युक्थ्यः परिधौ परिधौनि परिधाविति नी। परिधौ निमार्ष्टि मार्ष्टि यद्यदि रात्रः अतिरात्रो यजुहौ अतिरात्रैत्यति रात्रः यजुर्वदन्ने वदन्प्रपद्यते तद्यते यज्ञक्रतूनाम् यज्ञक्रतूनाम् व्यावृत्ति यज्ञकृतूनामिति यज्ञाकृतूनाम् व्यावृत्त्या इति वि आवृत्ति देवस्यत्वा प्रास्रवितोः स्रवितुःप्रसवे प्रसवैति प्रसवैति प्रसवे इति ग्रावाणम् ग्रावाणमा आदत्ते दन्दे प्रसोगोद्यै प्रसोगोत्या अश्विनोः प्रसोगोत्या इति प्रासोद्य अश्नो बाहुभ्याम् बाहुभ्यामिति बाहुभ्यामिति बाहोभ्याम् इत्याह आहाश्नौः अश्विनौ हि देवानाम् देवानामर्धर्यू अर्धर्यू आस्ताम् अर्धर्यू इत्यद्धर्यू आस्ताम् प्रोष्णः प्रोष्णो हस्ताभ्याम् हस्ताभ्यामिजि इत्याह आहयत्यै यत्यै पशवः पशवो वै वै सोमः सोमोऽभ्यानः व्यान उपागुंषुसवनः व्यान इति लीनः उपागुंषुसवनो यत् उपागुंषु सवन इत्युपागुंशुसवनः यदुपागुंशुसवनम् उपागुंशुसवनमभि उपागुंशुसवनमित्युपागुंशुसवनम् अभिविमीते विमीते व्यानम् व्यानमेव व्यानमिति वि अनम् एव पशुषु ऋषिषु दधाति दधातीन्द्राय इन्द्रायत्वा त्वेन्द्राय इन्द्रायत्वा त्वेति इति विमीते विमीतेन्द्राय इन्द्राय हि हि सोमः सोमः आह्रियलेः आह्रियते पञ्च आह्रेत्रा ह्रियलेः पञ्च कृत्वः कृत्वो यदुषा इदुषा विमीते इमीते पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पञ्चाक्षरे पञ्चाक्षराः पङ्क्तिः पान्तः पान्तो यज्ञः यज्ञो यज्ञम् यज्ञमेव एवाव अपगृन्धे वृन्धे पञ्च पञ्चकृत्वः कृत्वस्तूष्णीम् तूष्णीम् दश दशसम् सम्पद्यन्ते पद्यन्ते दशा अक्षरा दशा अक्षरा विराट् दशा अक्षरे दशा अन्नम् विराड् विराड् विराजा विराड् इति वीराड् विराजैव विराजेति वीराजाः एवान्नाद्यम् अन्नाद्यमव अन्नाद्यमित्यन्नाद्यम् अवरुन्धे रुन्धेष्वात्राः श्वात्रास्थ स वृत्रतुरः वृत्रतुरैरि वृत्रतुरैरि वृत्रातुरः इत्याह आहेशः एष वै वापा अपाकं सोमपीठः सोमपीठो यः सोमपीठ एवम् एवम् वेद वेदना नाप्सु अप्स्वार्तिम् अप्स्वित्यपोसु आर्तिमा आर्क्षति वृत्ते देवसोम सोमदिवि दिवि दि, ज्योतिः ज्योतिरि इत्याह आहैभ्यः एभ्य एवैनम् नम, एनम् लोकेभ्यः लोकेभ्यः सम् सम्भरति भरति सोमः सोमो वै वैराजाः राजादिशः दिशो नु अनुप्रादिशत् अविषत्प्राक् प्राग्पाक् अपागुदक् उदगधराग् अधरागिति इत्याह आहदिभ्यः दीर्घ एव दिग्भ्य इति दिगेभ्यः एव सम्भरति अथो दिशः अथो यद्यथोः दिश एव एवास्मै अस्माव एवा अपरुन्धे रुन्धेऽम्ब अम्बनि निश्वर स्वरेति इत्याह आहकामुकाः कामुका एनम् येन ग्रस्त्रियः स्त्रियो भवन्ति यः य एवम् एवं वेदा वेदयत् ये ते सोम सोमादाभ्यम् अदाभ्यन्नाम नाम जागृवि जागृवीति इत्याह आहैषः एष वै वै सोमस्य सोमस्य सोमबीधः सोमबीधो यः सोमबीध इति सोमापीधः यदेवम् न सौम्याम् सौम्यामार्तिम् आर्तिमा आर्च्छति पृच्छति घन्दि घ्रन्धि वा एतत् एतत्सोमम् सोमन्यत् यदभिशृण्वन्ति अभिशृण्वन्त्यघुंशोऽन् अभिशृण्वन्ति इत्यभिृण्वन्ति अघुंशोऽनप अपगृह्णाति गृह्णाति त्रायते त्राजत एवैनम् एनम् प्राणाः वा अगुंशवः अगुंशवः पशवः पशवः सोमः सोमोऽघुंशून् अघुंशून् पुनः पुनरपि अपि सृजति सृजति प्राणान् प्राणानेव प्राणादिति एव पशुषु पशुषु दधाति दधाति द्वौ द्वौ द्वौ द्वावपि द्वौ द्वाविदि द्वौ द्वौ अपि सृजति सृजति तस्मात् तस्माद्वौ द्वौ द्वौ द्वौ प्राणाः द्वौ द्वाविदि द्वौ द्वौ प्राणादिति प्राणाः प्राणो वै प्राण एष यद् यदुपागुंशुः उपागुंशुर्यद् उपागुंशुरित्युपागुंशुः यदुपादिष्वग्रहाः उपाधिष्वग्राग्रहाः उपाधिष्वग्रा इत्युपागुंशु अग्राः प्रहा गृह्यन्ते गृह्यन्ते प्राणम् प्राणमेव प्राणमिति प्राणम् एवानु अनुप्रयन्ति यन्त्यरुणः अरुणोः तस्मा स्माह आहौपवेशिः औपवेशिः प्रातः सवने औपवेशिरित्यौपवेशिः रातःसवन एव रातःसवन इति प्रातः सवने एवाहम् अहं यज्ञम् यज्ञगुंसम् सङ्गस्थापयामि स्थापयामि तेन तेन ततः तदस्सग्गुस्थितेन सग्गुस्थितेन चरामि सग्स्थितेन दिसं स्थितेन चरामीति चरामी इत्यष्टौ अष्टौ कृत्वा कृत्वो ग्रे अग्रेभिः अभिशृणोति शृणोत्यष्टाक्षरः अष्टाक्षरा गायत्री गायत्री गायत्रम् गायत्रम् प्रातस्सवनम् प्रातःसवनम् प्रातःसवनम् राजःसवनमितः सवनम् राजःसवनमेव प्रातः सवनम् एव तेन एनादश एकादशकृत्वः कृत्वो द्वितीयम् द्वितीयमेकादशाक्षरा एकादशाक्षरात् द्रष्टुप एकादशाक्षरे एकादश अक्षराः द्रष्टुष्भम्भम् माध्यन्दिनम् माध्यन्दिनकुम् सवनम् सवनम् माध्यन्दिनम् माध्यन्दिनमेव एव समनम् समनम् तेन एनात्मोपि आत्मवति द्वादश द्वादशकृत्वः कृत्वस्तृतीयम् तृतीयम् द्वादशाक्षरः द्वादशाक्षरः जगति द्वादशाक्षरे द्विद्वादश अक्षरः जगति जागदम् जागदम् तृतीयसमनम् तृतीयसमनम् तृतीयसमनम् तृतीयसमनमिति तृतीया समनम् तृतीयसमनमेव तृतीयसमनमिति तृतीया समनम् एव तेन एनात्मोपि आत्मोत्येताम् एतागुह स यज्ञस्य स्कन्धाय स्कन्दम् अस्कन्दधम् हि एतत् सर्गस्थितस्य सर्गस्थितस्य स्कन्दधि सर्गस्थितस्य दिशां स्थितस्य स्कन्धत्यथोः अथो खलु अथो विद्यथोः खलवाहुःत्री गायत्री वावप्रादस्सवने प्रातःसवनेन प्रातःसवन इति प्रातः सवने नादिवादेये अतिवादये अतिवादयत्यदीवादेये इत्यनदिवादुकः अनदिवादुक एनम् अनदिवादुकैत्यनदीवादुकः एनम् भ्रातृव्यः भ्रातृव्यो भवति भवति यः एवम् वेद वेद तस्मात् तस्मादष्टावष्टौ अष्टावष्टौ कृत्वा अष्टावष्टावित्यष्टौ अष्टौ कृत्वाभिषुत्यम् अभिषत्यम् ब्रह्मवादिनः अभिषत्यमित्यभिसुत्यम् ब्रह्मवादिना वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति पवित्रवन्दः पवित्रवन्दो अन्ये पवित्रवन्द इति पवित्रावः अन्ये ग्रहाः ग्रहादृश्यन्ते दृश्यन्ते किम् पवित्रः किम्पवित्रौ उपागुंशुः किम् पवित्र इति किम् पवित्रः उपागुंशुरिति उपागुंशुरित्युपागुंशुः इति वाक्पवित्रः वाक्पवित्रैरि वाक्पवित्रैति वाग्पवित्रः इति ब्रूयाद् ब्रूयाद्वाचः वाचस्पतये पतये भवस्वस्व वाजिन् इत्याह आहवाचा वाचैव एवैनम् एनम् पवयति पवयति कृष्णो अगुंशुभ्याम् अगुंशुभ्यामिति अगुंशुभ्यामित्यगुंशोऽभ्याम् अगुंशु इत्याह आहवृष्णः कृष्णो हि ह्येतौ एतावगुंशु अगुंशूयौ गुंषु इत्यगुंषु यौ सोमस्य सोमस्य गभस्तिभूतः गभस्तिभूत इति गभस्तिभूत इति गभस्तीभूतः इत्याह आह गभस्तिना गभस्तिना हि ह्येनम् एनम् पवयति पवयति देवः देवो देवानाम् देवानाम् पवित्रम् पवित्रमसि असीति इत्याह आह देवो हि ह्येषः एष सन् सन् देवानाम् देवानाम् पवित्रम् पवित्रम् येषाम् येषाम् भागः भागोऽसि असितेभ्यः तेभ्यस्त्वा त्वेति इत्याह आह येषाम् येषा गृह्हि ह्येषः एष भागः भागस्तेभ्यः तेभ्य एनम् एनम् गृह्णाति गृह्णाति स्वाङ्कृतः इत्याह आह प्राणमेव प्राणमिति प्राणम् एव स्वम् स्वमकृत अकृतमधुमतीः मधुमतीर्णः कृति कृथीति इत्याह आह सर्वम् सर्वमेव एवास्मै अस्मा इदम् इदग्रस्वदयतिः ईर्श्वेभ्यस्त्वा त्वेन्द्रियेभ्यः इन्द्रियेभ्यो दिव्येभ्यः दिव्येभ्यः पार्थिवेभ्यः पार्थिवेभ्यै इत्याह आहोभयेषु उभयेष्वेव एवदेव मनुष्येषु देवमनुष्येषु प्राणानि देवमनुष्येष्विति देव मनुष्येषु प्राणानुधादि प्राणादि प्राणान् दधादिवनः मनस्वा त्वाश्रु अश्विः इत्याह आहमनः मन एव एवाश्नु अश्युदगुरु उर्वन्तरिक्षम् अन्तरिक्षमनो अन्विः इहि इत्याह आहान्तरिक्षदेवत्यः अन्तरिक्षदेवत्यो हि अन्तरिक्षदेवत्य इत्यन्तरिक्षादेवत्यः हि प्राणः प्राणस्वाहा प्राण इति प्राणः स्वाहा स्वासुभवः सुभवः सूर्याय सुभव इति शोभवः सूर्यायेति इत्याह आह प्राणाः प्राणा वै प्राणा इति प्राणाः वै स्वभवसः स्वभवसो देवाः स्वभवस इति स्वाभवसः देवास्तेषु तेष्वेव एव परोक्षम् परोक्षम् जुहोति परोक्षमिति परःक्षम् जुहोति देवेभ्यः देवेभ्यः स्वा त्वामरीचिपेभ्यः अरीचिपेभ्यैति अरीचिपेभ्य इति मरीचिभ्यः इत्याह आहादिज्ञस्य आदित्यस्य वै त्वयि रश्मयः रश्मयो देवाः देवामरीचिपाः मरीचिपास्येषाम् मरीचिपा इति मरीचिपाः तेषाम् तत् तद्भागधेयम् भागधेयम् तान् भागधेयमिति भागाधेयम् तानेव एव तेन तेन प्रीणादि व्रीणादि यदि यदि परुषकः पर्जन्यः पर्जन्यः स्यात् स्यादिति इति नीचाः नीचाहस्तेन हस्तेननि निमृज्याद् वृज्याद्वृष्टिम् वृष्टिमेव एवनि नियच्छति यच्छति यदि यदि कामयेत कामयेत स्यादिति इत्युत्तानेन उत्थानेननि उत्तानेनेत्युत्थानेन निमृज्याद् वृज्याद्वृष्टिम् ृष्टिमेव एवोद् उद्यच्छति यच्छति यदि यद्यभिचरेत् अभिचरेदमम् अभिचरेदित्यभिचरेत् अमुम् जहि जह्यथ अथ त्वा त्वाहोष्यामि कोष्यामीति इति ब्रूयाद् ब्रूयादाहुतिम् आहुतिमेव आहुतिमित्याहुतिम् एवैनम् एनम् प्रेप्सन् प्रेप्सन् हन्ति प्रेप्सन् इति प्रहीप्सन् यदि दूरे दूरे स्यात् स्यादा आतमितोः तमितोस्तिष्ठेत् तिष्ठेत् प्राणम् प्राणमेव प्राणमिति प्राणम् एवास्य अस्यानुगत्य अनुगत्य हन्ति अनुगत्येत्यनुगत्य हन्ति यदि यद्यभिचरेत् अभिचरेदमुष्य अभिचरेदित्यभिचरेत् प्राणे प्राणे साधयामि प्राण इति इति साधयेत् साधयेदसन्नः असन्नो वै वै प्राणःप्राणम् प्राण इति प्राणः प्राणमेव प्राणमिति प्राणम् एवास्य अस्य साधयति सादयति षड्भिः षड्भिरघुंशुभिः षड्भिरिति षट्भिः ऋघुंषुभिः पवयति ऋघुंशुभिरिज्यघुंशुभिः पवयति षट् षड्व वा ऋतवः ऋतव ऋतुभिः ऋतुभिरेव ऋतुभिरृतुभिः एवैनम् एनम् पवयति पवयति त्रिः इमे लोकाः लोका एभिरेव एवैनम् एनम् लोकैः लोकैः पवयति पवयति ब्रह्मवादिनः ब्रह्मवादिना वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्मात् कस्मात् सत्यात् सत्या त्रयः त्रयः प्रशूनाम् प्रशूणागम् हस्तादानाः हस्तादाना इति हस्तादाना इति हस्ता आदानाः इति हस्तेन उपाघुंशुमित्युपाघुंशुम् हस्तेन विगृह्णाति विगृह्णाति तस्मात् विगृह्णाति इति विगृह्णाति तस्मात् त्रयः त्रयः पशूनाम् पशूनागम् हस्तादानाः हस्तादानाः पुरुषः हस्तादाना इति हस्ता आदानाः मर्कटः मर्कट इति मर्कटः देवा वै वै यद् यद्यज्ञे यज्ञे कुर्वत अकुर्वत तत् तदसुराः असुरा अकुर्वत अकुर्वतते ते देवाः देवा उपागुंशौ उपागुंशौ यज्ञम् उपागुंशाविद्युपागुंशौ यज्ञम् सग्गस्थाप्यम् सग्गस्थाप्यमपश्यन् सर्गस्थाप्यमिति संस्थाप्यम् अपश्यन्तम् तमुपागुंशौ उपागुंशौ सम् उपागुंशाविद्युपागुंशौ समस्थापयन् अस्थापयन्ते ते असुराः असुरा उद्यत्य देवान् उद्येद्य देवानपि अभ्यायन्द आयन्तते हे देवाः देवा विभ्यदः विभ्यद इन्द्रम् इन्द्रमुप उपाधावन् अन्तर्यामेण अन्तर्यामेणान्तः अन्तर्यामेणेत्यन्तः यामेन अन्तरधत्त अधः दद तदन्तर्यामस्य अन्तर्यामस्य अन्तर्यामत्वम् यामस्य अन्तर्यामत्वम् यत् अन्तर्यामत्वमित्यन्तर्यामा त्वम् अन्तर्यामो दृश्यते अन्तर्याम इत्यन्तः यामः दृश्यते भ्रातृव्यान् भ्रातृव्यानेव एव तत् तद्यजमानः यजमानोऽन्तः अन्तर्धत्ते तत्तेऽन्तः अन्तस्ते ते दधामि दधामिद्या अन्तः द्यावापृथिवी इति द्यावा पृथिवी अन्तरुरो कुर्वन्तरिक्षम् अन्तरिक्षमिति इत्याह आहैभिः एभिरेव एव लोकैः लोकैर्यजमानः यजमानो भ्रातृव्यान् भ्रातृव्यानन्दः अन्तर्धत्ते धत्ते, धत्ते दे, ते, देवा इडम, ते ते देवाः देवा अमन्यन्त अमन्यन्तेन्द्रः इन्द्रो वै वा इदम् इदमभूद् अभूद्यत् यद्वयम् वयग्रस्मः स्म इति इजिते ते हे ब्रुवन् अब्रुवन्मघवन् मघवन्ननु मघवन्निति मघावन् अनुनः आभज भजेति इति सजोषा आह सजोषा देवैः सजोषा इति सा देवैरवरैः अवरैः परैः परैश्च चेति इत्यब्रवीत् अब्रवीद्ये ये च चैव देवाः देवाः देवा परे परेजे ये च शाभरे अवरेतान् तानुभयान् उभयानन्वाभजत् उभलान अन्वाभजत्सजोषा आह अन्वाभजदित्यनो आभजत् सजोषा देवैः सजोषा इति सा देवैरवरैः अवरैः स्वरैः परैश्च चेति नित्याह आहये ये च चैव एव देवाः देवाः स्परे परेये चावरे अवरे तान् तानुभयान् उभयानन्वा भजति अन्वा भजत्यन्तर्यामे अन्वा भजतीत्यनो आभजति अन्तर्यामे मघवन् अन्तर्याम इत्यन्तः यामे मघवन्मादयस्व मघवन्निति मघवन् मादयस्वेति इत्याह आह यज्ञात् यज्ञादेव एव यजमानम् यजमानम् नान न नान्तः अन्तरेति यद्युपजामगृहीतः प्रजामगृहीतोऽसि प्रजामगृहीतयजुपजामागृहीतः असीति इत्याह आह अपानस्य अपानस्य धृत्यैः अपानस्य यद्युपानस्य धृत्यै यत् यदुभौ उभावपवित्रौ अपवित्रौ गृह्ये जाताम् गृह्ये जाताम् प्राणम् अपानो नु अपानयत्यपानः अनुनि गृच्छेत् पृच्छेत् प्रमायुगः प्रमायुगः स्यात् प्रमायुग इति प्रामायुगः स्यात् पवित्रवान् पवित्रवानन्तर्यामः पवित्रपान इति पवित्रापान् अन्तर्यामो दृश्यते अन्तर्याम इत्यन्तः यामः दृश्यते प्राणापालयोः प्राणापानौ वै प्राणापानावि प्राणापानौ वा एतौ एतौ यद् यदुपागस्वन्तर्यामौ उपागस्वन्तर्यामौ ज्ञानः प्रागस्वन्दर्यामाविद्युपागुंशु अन्तर्यामौ ज्ञान उपागुंशु समनः ज्ञान इति वि अनः उपागुंशु समनोऽयम् उपागुंशु समन इत्युपागुंशु समनः यम् कामयेत कामयेत प्रमायुकः प्रमायुकः स्यात् प्रमायुक इति प्रामायुकः स्यादिति तस्य असग्स्पृष्टाविद्यसंस्पृष्टौ तस्य साधयेत् साधयेद्व्यानेन यानेनैव अनेन एवास्य अस्य प्राणापानौ प्राणापानौ वि प्राणापानाविधि प्राणापानौ विच्छिनद्दि छिनद् ताजग् ताजग्रा कामयेत कामयेत सर्वम् सर्वमायुः आयुर्यात् यादिति इति सर्गस्पृष्टौ सर्गस्पृष्टौ तस्य सर्गस्पृष्टाविधि संस्पृष्टौ तस्य साधयेत् साधयेद्व्यानेन ज्ञानेनैव ज्ञानेनेति अनेन एवास्य अस्य प्राणापानौ प्राणापानौ सम् प्राणापानाविचित् तनोति सर्वम् सर्वमायुः आयुरेति एतीत्येति वा द्वै वा यदीन्द्रवायवः हीन्द्रवायवो यद् हैन्द्रवायवैत्यईन्द्रवायवः यदीन्द्रवायवाग्रहाःवाग्राग्रहाः हैन्द्रवायवाग्रायवाग्रहः ग्रहागृह्यन्ते अनुप्रयन्ति यन्ति वायुम् वायुन्देवाः देवा अब्रुवन् अब्रुवन् राजानम् राजानगुम्हनामनामेति यदि सः सोऽद् अब्रवीद्वरम् एव मदग्रा इति मदग्रहे ग्रहाः ग्रहादृष्यान्दै दृष्यान्द्रा इति तस्मात् तस्मादैन्द्रवाजवाग्रहाः ऐन्द्रवाजवाग्राग्रहाः ऐन्द्रवाजवाग्रा इत्यन्द्रवाजवाग्रहा ग्रहागृष्यन्ते दृश्यन्ते तम् अघ्नान् सः सोऽभूयत् अपभूयत्तम् तम् देवाना नोप उपाधृष्णवन् अधृष्णवन्ते ते वायुम् वायुमब्रुवन् अब्रुवन् इमम् युवन्नः अस्वदय स्वदयेति इति सः सोऽब्रवीत् अब्रवीद्वरम् वरम् वृणै वृणै मद्देवत्यानि मद्दैवत्याेव मद्दैवत्यानिति मद् देवत्यानि केवलः तस्मान्नादेवत्यानि नानादेवत्यानि सन्ति नानादेवत्यानिति नानादेवत्यानि सन्ति वायव्यानि वायव्यान्युच्यन्द्रे युच्यन्दे तम् रमेभ्यः एभ्यो वायुः वायुरेव एवास्वदयत् अश्वदयत्तस्माद् तस्मादि यत्पूयति पूयति तत् तत्प्रभाते प्रभाते वि प्रभात इति प्रभाते विषजन्ति सृजन्ति वायुः वायुरिहितस्य तस्य पवयिता अवयिता सुदयिता सुदयिता तस्य तस्य विग्रहणम् विग्रहणन्न विग्रहणमिति विग्रहणम् नाविन्दन् अविन्दान् सादितिः अदितिरब्रवीद अब्रवीद्वरम् वरम् वृणै वृणा अथ अथ मया मयावि विगृह्णेध्वम् गृह्णेध्वम् मद्देवत्याः मद्देवत्या एव मद्देवत्या इति मद्देवत्याः एव वह वः सोमाः सोमाः सन्नाः सन्नाः असन्निति युज्यपयामगृहीतः उपयामगृहीतोऽसि उपयामगृहीतयुज्जपयामागृहीतः असीति युद्याः आह अतिरेवत्या आह अतिथिरेवत्यास्तेन अतिथेवत्या इत्येवत्या आह तेन यानि यानि हि दारुमयानि दारुमयाणि पात्राणि दारुमयाणीति दारुमयानि पात्राण्यस्य योने सम्भूतानि सम्भूतानि यानि यानि मृण्मयानि मृण्मयानि साक्षात् मृण्मयानीति मृदमयानि साक्षात् तानि साक्षादिति साक्षात् तान्यस्यै अस्यैतस्मात् तस्मादेवम् एवमाह आहवाग् वा्वै वै पराची पराच्यव्याकृता अव्याकृतावदत् अव्याकृतेत्यपि आकृताः अवदत्ते ते देवाः देवा इन्द्रम् इन्द्रमब्रुवन् अब्रुवन्निमाम् इमां नः नो वाचम् वाचम् व्याकुरु व्याकुर्विति व्याकुर्विति वि आकुरु इति सः सोऽब्रवीत् अब्रवीद्वरम् वरम् वृणै वृणै एवैषः एष वायवे वायवे सः सह गृह्यातै गृह्याता इति तस्मात् तस्मादेन्द्रवायवः ऐन्द्रवायवः सः ऐन्द्रवायव इत्यन्द्रवायवः सः कृष्यते गृह्यते ताम् तामिन्द्रः इन्द्रोऽमथ्यतः मध्यतोऽवक्रम्य अवक्रम्य व्याकरोत् अवक्रम्येत्यवाक्रम्य व्याकरोत्तस्मात् व्याकरोदिवि आकरोत् तस्मादियम् इयम् व्याकृता व्याकृता आकृता वागुद्यते उद्यते तस्मात् तस्मात् सकृद् सकृदिन्द्राय इन्द्राय मध्यतः मध्यतो दुर्वायवेः वायवेद्वौ गौ हि हि सह सवरो वराववृणीत अवृणीतेत्यवृणीत मित्रम् देवाः देवा अब्रुवन् अब्रुवन् सोमगं राजानम् राजानगुम् इति सह सोऽब्रवीद् अब्रवीन्न नाहम् अहगम् सर्वस्य सर्वस्य वै वा अहम् अहम् मित्रम् मित्रमस्मि अस्मीति इदिथम् तमब्रुवन् अब्रुवनः अनामेव एवेति यदि सः सोऽब्रवीद् अब्रवीद्वरम् परम् वृणे वृणे एवमे मे सोमम् सोमग् श्रृणन् तस्मात् तस्मान्मैत्रावर्णम् मैत्रावर्णम् पयसा मैत्रावर्णमिति मैत्रावर्णम् पयसा श्रृणन्ति श्रीणन्ति तस्मात् तस्मात्पशवः पशवोप अपाक्रामन् अक्रामन्मित्रः मित्रः सन् सन् क्रूरम् क्रूरमकः अकरिति यदि क्रूरम् क्रूरमिव इव खलु खलु वै वा एषः एष करोति करोति यः यः सोमेन सोमेन यजते यजते तस्मात् तस्मात्पशवः पशवोप अपक्रामन्ति क्रामन्ति यत् यन्मयित्रावरुणम् मयित्रावर्णम् वयसा मयित्रावृणमिति मयित्रावर्णम् वयसा श्रीणाति त्रिणाति पशुभिः पशुभिरेव पशुभिरिति पशुभिः एव तत् तन्मित्रम् मित्रकम् समर्धयति समर्थयति पशुभिः समर्थयतीति संवर्धयति पशुभिर्यजमानम् पशुभिरिति पशुभिः यजमानम् पुरा पुरा खलु खलु वाम् एवम् मित्रः मित्रो वेद अवेदप अपमद् मत्क्रूरम् क्रूरम् चकृषः चकृषः पशवः पशवः क्रमिष्यन्ति क्रमिष्यन्तीति इति तस्मात् तस्मादेवम् एवमवृणीत अवृणीतवरुणम् वरुणम् देवाः देवा अब्रुवन् अब्रुवन्तया त्वयागं शभुवाः अगं शभुवा सोमम् अगं शभुवेत्यगुशाभुवाः सोमघुम् राजानम् राजानघुम् हनाम हनामेति इति सः सोऽब्रवीद् अब्रवीद्वरम् वरम् चैव एवैषः एष मित्राय च सः सह गृह्यातै गृह्याता इति तस्मात् तस्मान्मैत्रावृणः मैत्रावृणः सह मैत्रावृण इति मैत्रावृणः सह गृह्यते गृह्यते तस्मात् तस्माद्राज्ञा राज्ञा राजानम् राजानमगुंशभुवा अगंशभुवाघन्ये अगुंशभुवेत्यगुं शाभुवा घन्दिवैश्येन वैश्येन वैश्यम् वैश्यकुम् शूद्रेण शूद्रेण शूद्रम् शूद्रम् न वै वा इदम् इदम् दिवा दिवा न रक्तम् रक्तमासीत् आसीदव्यावृत्तम् अव्यावृत्तम् ते अव्यावृत्तमित्यपि आवृत्तम् ते दे देवाः देवामित्रावरुणौ मित्रावरुणावब्रुवन् मित्रावरुणाविति मित्रावृणौ अब्रुवन्निदम् इदम् नः नो हि विभासयतम् वासयतमिति इति तौ तावब्रूताम् अब्रूताम् वरम् वरम् वृणावहै वृणावहा एकः एक आवत्पूर्वः पूर्वो ग्रहः ग्रहो इति तस्मात् तस्मादैन्द्रवायवः ऐन्द्रवायवः पूर्वः ऐन्द्रवायवैत्यैन्द्रवायवः पूर्वो मैत्रावरणाद् मैत्रावरणाद् गृह्यते नैत्रावरणादिति मैत्रावरणाद् गृह्यते प्राणावानौ प्राणापावानौ हि प्राणापानाविति प्राणावानौ एतौ एतौ यद् यदुपागसौन्दर्यामौ उभागसुन्दर्यामौ मित्रः मित्रोह आहरजनयत् अजनयद्वरुणः वरुणो रात्रिम् रात्रिन्दतः ततो वै वा इदम् इदम् वि व्यौचद औच्छद्यत तन्मैत्रावरुणः मैत्रावरुणो दृश्यते दृश्यते व्युष्ट्यै व्युष्ट्यायी यज्ञस्य शिरः शिरोवच्छिद्यत गच्छिद्यत ते देवाः देवा अश्विनौ अश्विनावब्रुवन् अब्रुवन् द्विजुलौ भिजुलौ वै वैष्ठः स्थ इदम् इदम् यज्ञस्य यज्ञस्य शिरः शिरः प्रति प्रतिधत्तम् धर्तमिति तौ तावब्रूताम् अब्रूताम् वरम् वरम् रणावहै मावत्र अत्रापि अभिगृह्यताम् गृह्यतामिति यदि ताभ्याम् ताभ्यामेतम् एतमानाश्विनम् अश्विनमगृह्णन् अगृह्णन् ततः वै, तौ यज्ञस्य यज्ञस्य शिरः शिरः प्रति प्रत्यधत्ताम् अधत्ता यत् यदा आश्विनः आश्विना गृह्यते गृह्यते यज्ञस्य यज्ञस्य निष्कृत्यै निष्कृत्यैतौ निष्कृत्यादित्यैः तौ देवाः देवाब्रुवन् अब्रुवन्नभूतौ अभूतौ वै वा इमौ इमौ मनुष्यचरौ मनुष्यचरौ भिषदौ मनुष्यचरा विदि मनुष्याचरौ तस्मात् तस्माद्ब्राह्मणेन ब्राह्मणेन भेषणम् भेषणम् न कार्यम् कार्यमपूतः अपूतो हि येषः एषो मेध्यः अमेध्यो यः योऽभिषग् विषक्तौ तौ बहिष्पोमानेन बहिष्पमानेन पवयित्वा बहिःष्पोमानेनेति बहिः सोपमानेन पवयित्वा ताभ्याम् ताभ्यामेतम् एतमाश्विनम् आश्विनमगृह्णन् अगृह्णन्तस्मात् तस्माद्बहिस्पोमाने बहिष्पोमाने स्तुते बहिष्पौमान इति बहिः पोमाने स्तुताश्विनः अश्विना गृह्यते गृह्यते उपसद्यः बहिष्पोमान इति बहिः उपमानः उपसद्यः पवित्रम् आत्मानमेव एवमुपयते अपयदे तयोः तयोः श्रेधा त्रेधाभैषज्यम् भैषज्यम् विदधुः अतसुरग्नौ अग्नौ तृतीयम् तृतीयमप्सु अप्सु तृतीयम् अप्सित्यपुसु तृतीयम् ब्राह्मणे ब्राह्मणे तृतीयम् तृतीयम् तस्मात् तस्मादपात्रम् उतपात्रमुपनिधाय उदपात्रमित्यथा पात्रम् उपनिधाय ब्राह्मणम् उपनिधाय इत्युपनिधाय ब्राह्मणम् दक्षिणतः दक्षिणतो निषाद्य निषाद्य भेषणम् निषाद्येति निसाद्य भेषणम् यावत् यावदेव एव भेषणम् भेषितम् तेन तेन करोति करोति समर्थकम् समर्थकमस्य समर्थकमिति संवर्धुकम् तस्य कृतम् कृतम् भवति भवति ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति सत्यात् सत्यादेकपात्राः एकपात्रा द्विदेवत्याः एकपात्रा इत्येका पात्राः देवत्या कृष्यन्ते देवत्या इति द्विदेवत्याः कृष्यन्ते द्विपात्राः द्विपात्रा हूयन्ते द्विपात्रा इति द्विपात्राः हूयन्ते इति यदेकपात्राः एकपात्रा कृष्यन्ते एकपात्रा इत्येका पात्राः कृष्यन्ते तस्मात् तस्मादेकः एकोऽन्तरतः अन्तरतः प्राणः प्राणो प्राण इति प्राणः द्विपात्रा हूयन्ते विवात्रा इति द्विपात्राः तस्मात् तस्माद्वौ द्वौ द्वौ द्वौ बहिष्टाद्वौ द्वाविलि द्वौ द्वौ बहिष्टाः प्राणाः प्राणाः प्राणाः प्राणायति प्राणाः प्राणावि प्राणायतिप्राणाः आ एते नेते यत् दे देवत्याः पशवः देवत्या इति दे द्वेदेवत्याः पशवैडाः इडायत इदिडाम् इडाम् पूर्वाम् पूर्वान्द्विदेवत्ययेभ्यः देवत्ययेभ्योपहृत देवत्ययेभ्य इति द्विदेवत्ययेभ्यः उपह्रुजेत पशुभिः उपह्रुयेतेत्युपाहृत पशुभिः प्राणान् पशुभिरति पशुभिः प्राणानन्तः प्राणानिति प्राणान् अन्तर्दधीतधीतप्रमायुगः प्रमायुगः स्यात् प्रमायुग इति प्रामायुगः देवत्यानिति द्वि देवत्यान् वृक्षयित्वेनाम् यामुप उपह्वयदे प्राणान् प्राणानेव प्राणानि प्राणान् एवात्मन् धित्वा पशून् पशूनुप उपह्वे वयदेवाग् वाग्वै वा ऐन्द्रवायवः हैन्द्रवायवश्चक्षुः हैन्द्रवायवैत्यीन्द्रवायवः चक्षुरुमैत्रावरुणः मैत्रावरुणः श्रोत्रम् मैत्रावरुण इति मैत्रावरुणः आश्रिनः पुरस्ताद् पुरस्तात् इन्द्रवायवम् ऐन्द्रवायवम् भक्षयति ऐन्द्रवायवयवम् भक्षयति तस्मात् तस्मात् पुरस्ताद् पुरस्ताद्वाचा वाचा वदति पुरस्ताद् पुरस्तान्मैत्रावर्णम् मैत्रावर्णम् तस्मात् मैत्रावर्णविजि मैत्रावर्णम् तस्मात् पुरस्ताद् पुरस्तात् चक्षुषा चक्षुषा पश्यति पश्यति सर्वतः सर्वतः परिहारम् परिहारमाश्रिनम् परिहारमिति परिहारम् आश्रुयन् तस्मात् तस्मात् सर्वतः सर्वतः श्रोत्रेण श्रोत्रेण प्राणावि प्राणा इति एते एतेः देवत्या अरिक्तानि देवत्या इति द्वे देवद्याः अरिक्तानि पात्राणि पात्राणि साधयति साधयति तस्मात् तस्मादरिक्ताः अरिक्ता अन्तरतः अन्तरतः प्राणाः प्राणायतः प्राणाय प्राणाः यतः खलु खलु वै मयि यज्ञस्य यज्ञस्य विततस्य विततस्य न वितदस्येति वितततस्य न क्रियते क्रियते तत् तदनु अनुयज्ञम् यज्ञकम् रक्षाकंसि रक्षादस्य वा अपचरन्ति चरन्ति यत् यदरिक्तानि पात्राणि पात्राणि साधयति साधयति क्रियमाणम् क्रियमाणमेव एव तत् तद्यज्ञस्य यज्ञस्य विषये शे रक्षसाम् रक्षसामनन्वचाराय अनन्मवचाराय दक्षिणस्य अनन्वचारायत्यनो अवचाराय दक्षिणस्य अव्यर्धानस्य अव्यर्धानस्योत्तरस्याम् अव्यधानस्येति हविधानस्य उत्तरस्याम् वर्तन्याम् उत्तरस्यामिच्छ वर्तन्याकम् साधयति साधयति वाचि वाच्येव एव वाचम् वाचम् दधाति दधात्या आ तृतीयसवनात् तृतीयसमनात्परि तृतीयसमनादिति तृतीयसमनात् परिशेरे शेरे यज्ञस्य यज्ञस्य सन्दति सन्दत्या इति सन्दर्तिः बृहस्पतिर्देवानाम् देवानाम् पुरोहितः पुरोहितासीत् पुरोहित इति पुरोहितः आसीत् षण्डामर्गौ षण्डावर्गावसुराणाम् षण्डावर्गादि षण्डामर्कौ असुराणाम् ब्रह्मण्वन्दः ब्रह्मण्वन्तो देवाः ब्रह्मण्वन्त इति ब्रह्मण्णे वन्तः देवासन् आसन् ब्रह्मण्वन्तः ब्रह्मण्वन्तोऽसुराः ब्रह्मण्वन्द इति ब्रह्मण्णे वन्तः असुरास्ते तेऽन्यः अन्योन्यम् अन्यन् नाशक्नुवन् अशक्नुवन्नभिभवितम् अभिभवितुम् ते अभिभवितमित्यभिभवितम् ते देवाः देवाः षण्डामर्कौ षण्डामर्कावप षण्डामर्काविषण्डामर्कौ उपामन्त्रयन्त अमन्त्रयन्ततौ तावब्रूताम् अब्रूताम् वरम् तरम् वृणावहै ग्रहौ रहावेव एवनौ नावत्र अत्रापि अपि गृह्येताम् गृह्येतामिति एताभ्याम् ताभ्यामेतौ एतौ शुक्रावन्थिनौ शुक्रावन्थिनावगृह्णन् शुक्रावन्थिनाविति शुक्रावन्थिनौ गृह्णन् ततो देवाः देवा अभवन् अभवन्पराः परासुराः असुरायस्य यस्यैवम् एवम् विदुषः विदुषः शुक्रावन्थिनोः शुक्रावन्थिनो गृह्येते शुक्रावन्थिनामिति शुक्रा भवति दृह्येते यदि गृह्येते भवत्यात्मनाः भवत आत्मनापराह पराहस्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवति तौ तौ देवाः देवा अपनुद्य देवा अपनुद्यात्मने अपनुद्येत्यपानुद्य आत्मन इन्द्राय इन्द्रायाजुहवुः अजुहौ अपनुत्तौ अपनुत्तौ षण्डामर्गौ अपनुत्ताविद्यपानुत्तौ षण्डामर्कौ सः षण्डामर्काविदिषण्डामृर्गौ सहामुनाः अमुनेति इति ब्रूयाद् ब्रूयाद्यम् यम् द्विष्याद् द्विष्याद्यम् यमेव एद्वेष्ये द्वेष्यतेन तेनैनौ एनौ सह सहाप अपनुदते मुदते सः सप्रथमः प्रथमः सङ्कृतिः सङ्कृतिर्विश्वकर्म सङ्कृतिरिसङ्कृतिः विश्वकर्मेति विश्वकर्मेति विश्वकर्मा इत्येव एवैनौ एनावात्मनेः आत्मन इन्द्राय इन्द्राजाजुहवोः अजुहोरिन्द्रः इन्द्रो हि ह्येतानि एतानि रूपाणि रूपाणि करिक्रद् करिख्रदचरत् अचरदसौ असौ वै वा आदित्यः शुक्रः शुक्रश्चन्द्रमाः चन्द्रमा मन्थी वन्थ्यभिगृह्य अभिगृह्य प्राञ्चौ अभिगृह्येत्यभिगृह्य प्राञ्चौनिः निष्क्रामदः रामदस्तस्मात् राम तस्मात्प्राञ्चौ प्राञ्चौ यन्तौः यन्तौ न न पश्यन्ति पश्यन्ति प्रत्यञ्चौ प्रत्यञ्जावृत्य आवृत्यजुहृदः आवृत्येद्य आवृत्य जुहृतस्तस्मात् तस्मात् प्रत्यञ्चौ प्रत्यञ्चौ यन्तौ यन्तौ पश्यन्ति पश्यन्ति चक्षुषी वै चक्षुषी इति एते एते यज्ञस्य एते इत्येते यज्ञस्येत् यच्छुक्रावन्थिनौः शुक्रावन्थिनौ नासिका शुक्रावन्थिनामिति शुक्रावन्थिनौ नासिकोत्तरवेदिः उत्तरवेदिरभितः पुत्रवेदिरित्युत्तरावेदिः अभिलः परिक्रम्य परिक्रम्य जुहृतः परिक्रम्येति परिक्रम्य जुहृतस्तस्मात् तस्मादभितः अभितो नासिकाम् नासिकाम् चक्षुषि चक्षुषि तस्मात् नासिकया चक्षुषि चक्षुषी विधृते चक्षुषी इति चक्षुषी विधृते सर्वतः विधृते इति सर्वतःपरि परिक्रामतः क्रामतो रक्षसाम् रक्षसामपहत्यै अपहत्यै देवाः अपहत्या इत्यपाहत्यै दे देवा वै वैयाः याः जा प्राचीः प्राचीराहुतीः आहुतीरजुहवो आहुतीरित्याहुः अजुहवुर्ये ये पुरस्तात् पुरस्तादसुराः असुराः सन् आसन्तान् प्रागस्ताभिः ताभिः प्रानुदन्त अनुदन्तयाः याः प्रतीचीः प्रतीचीर्ये ये पश्चात् पश्चादसुराः असुरा आसन् आसन्दान् रागस्ताभिः ताभिरप अपानुदन्त अनुदन्तप्राचीः प्राचीरन्याः रन्या आहुदयः आहुदयोः यन्दे आहुदय इत्याहृदयः भोयन्ते प्रत्यञ्जौ प्रत्यञ्जौ शुक्रामन्थिनौ शुक्रावन्थिनौ पश्चात् शुक्रमन्थिनापि शुक्रावन्थिनौ पश्चाच्च चैव एव पुरस्तात् पुरस्ताच्च च यजमानः यजमानो भ्रातृव्यात् भ्रातृव्यान्द्रणुदरे तस्मात् तस्मात्पराचीः पराची श्रजाः प्रजास्प्रजा इति प्राजाः प्रवीयन्ते वीयन्ते प्रतीचीः प्रतीचीर् जायन्ते जायन्ते शुक्रावन्थिनौ शुक्रावन्थिनौ वै शुक्रावन्थिनाविति शुक्रावन्थिनौ वा अनु अनुप्रजाः प्रजास्प्रजा इति प्राजाः प्रजायन्ते प्रजा जायन्तेऽत्रीः अत्रीश्च साद्याः आद्याश्च सुवीराः सुवीराः प्रजाः सुवीरा इति सुवीराः प्रजाः प्रजनैन् प्रदायलिप्राजाः व्रजनयन्परि रजनयन्निलिप्राचरेन् परीहि शुक्रः शुक्रः शुक्रशोजषा शुक्रशोजषा सुप्रदाः शुक्रशोजषेति शुक्रा शोजषा सुप्रदाः प्रदाः सुप्रदा यलिसोप्रदाः प्रदाःप्रजरेन् प्रदायलिप्राजाः व्रजनयन्परि व्रजनयन्निलिप्राचरेन् परीहि मन्थी मन्थि मन्थिषोजषा इत्याह आहैताः एता वै वयि सुवीराः सुवीराजाः सुवीरा इति सुवीराः या अत्रीः अत्रिरेताः सुप्रजाः सुप्रजायाः सुप्रजा इति सुप्रजाः या आद्याः आद्यायः एवम् एवम् वेद वेदात्री अत्त्व्यस्य अस्य प्रजा प्रजा जायते प्रजाति प्राजा जायते न नाद्याः आद्याः प्रजापतेः प्रजापतेरदि प्रजापते अक्ष्यश्वेत् अश्वयत्तत् तत्परा परापदद् अपदद्धद् तद्विगङ्गदम् विगङ्गदम्ब्र विगङ्गदमि दिवि गङ्गतम् प्राविशत् अविषद्दत् तद्विगङ्गदे विगङ्गदे विगङ्गद दिवि गङ्गदे नारमद अरमददत् तद्यमम् यवम्र प्राविशत् अविषत्तद् तद्यवे यवेरमद अरमदत् तद्यवस्य यवस्येव त्वम् यवत्व कवत्वमिति यवात्वम् यद्वैकङ्गतम् वैकम् गतम् मन्थिपात्रम् मन्थिपात्रम् भवति मन्थिपात्रमिति मन्थिपात्रम् भवति सक्तुभिः सक्तुभिः श्रीणादि सक्तुभिरिचिसक्तुभिः श्रीणादि प्रजापतेः प्रजापतेरेव प्रजापतेरति प्रजापतेः एव तत् तच्चक्षुः चक्षुः सम् सम्भरति भरति ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति वदन्ति कस्मात् कस्मात् सत्यात् सत्यान्मन्थिपात्रम् अन्ध्यपात्रकम् सदः मन्ध्यपात्रमिति मन्ध्ये पात्रम् सदो न नाश्नुते अश्नुत इति इत्यार्थपात्रम् आर्तपात्रकम् हि आर्तपात्रमित्यार्तपात्रम् इति ब्रूयात् ब्रूयाद्यत् यदश्नुवीत अश्नवीतान्धः अन्धोऽध्वर्युः अध्वर्युः स्यात् स्यादार्तिम् आर्तिमा आर्च्छेद् पृच्छेत्तस्मात् तस्मान्न नाश्नुते अश्नुत इत्यश्नुते देवा वै वै यत् यद्यज्ञे यज्ञे कुर्वत अकुर्वत तदसुराः असुरा अकुर्वत अकुर्वतते ते देवाः देवा आग्रेणाग्रान् आग्रेणाग्रान् ग्रहान् आग्रेणाग्रानित्याग्रेणाग्रान् ग्रहान् पश्यन् अपश्यन्तान् तानगृह्णत अगृह्णत ततः ततो वै वै ते ते अग्रम् अग्रम् परि पर्यायन् आयन यस्य विदुषाग्रेणाग्रहाः आग्रेणाग्राग्रहाः आग्रेणाग्रा इत्याग्रेणाग्राः ग्रहा गृह्यन्ते गृह्यन्ते अग्रम् अग्रमेव एव समानानाम् समानानाम् परिपर्येति यदि रुग्णवत्या रुग्णवत्यर्चा रुग्णवत्य इति रुग्णावत्याः रुचा भ्रातृव्यवधः भ्रातृव्यवतो भ्रातृव्यवत इति how... भ्रातृव्यावतः अन्येयाद्भ्रातृव्यस्य भ्रातृव्यस्यैव रुक्त्वा रुक्त्वाग्रम् अग्रहम् समानानाम् समानानाम् परि पर्येति ये देवाः देवादिवि दिव्येकादश एकादशास्थ स्थेति इत्याह आहैतावतीः एतावतीर्वै वै देवताः देवतास्ताभ्यः ताभ्य एवैनम् येनकम् सर्वाभ्यः सर्वाभ्यो गृह्णादि गृह्णाद्येषः एष ते तेजोनिः यो निर्विश्वेभ्यः विश्वेभ्यस्त्वा त्वा देवेभ्यः इत्याह आह वैश्वदेवः वैश्वदेवो हि इति वैश्वदेवः येषः एष देवतया वाग् वाग्मयि वै देवेभ्यः देवेभ्योप अपाक्रामद् अक्रामद्विज्ञाय व्यज्ञायातिष्ठमाना ते देवाः देवा वाचि वाच्यपक्रान्दायाम् अपक्रान्दायाम् तूष्णीम् अपक्रान्दायामित्यपाक्रान्दायाम् तूष्णीम् ग्रहान् ग्रहान् गृह्णत अगृह्णतसामन्यत अमन्यतवागवागन्तः अन्तर्यन्ति यन्ति वै वैमा मेदि यदि सा ग्रहणम् प्रति प्रत्या आगच्छत् अगच्छत्तत् तदाग्रयणस्य आग्रयणस्याग्रयणत्वम् आग्रयणत्वम् तस्मात् आग्रयणत्वमित्याग्रयणत्वम् तस्मादाग्रयणे आग्रयणे वाग्वाग्भि विसृज्यते सृज्यते यत् यत्तोष्णीम् तोष्णीम् पूर्वे पूर्वे ग्रहाः ग्रहा क्लिष्यन्ते क्लिश्यन्ते यथा सारी था यदि यदि मे आखल्यति इयति न नाप अपरात्स्यामि रात्स्यामीति इत्युपावसृजति उपावसृजत्येवम् उपावसृजतीत्युपावसृजति एवमेव एव तत् तदधर्युः धर्युराक्रयणम् गृहीत्वा गृहीत्वा यज्ञम् यज्ञमारभ्य आरभ्यवाचम् आरभ्येद्यारभ्य वाचम् विसृजते सृजते त्रिः त्रिलिहिम् करोत्युद्घातॄन् उद्घातॄनेव उद्घातॄन्त्यॄन् एव तत् तद्वृणीते वृणीते प्रजापतिः प्रजापतिर्वै प्रजापतिरिप्रजापतिः वा एषः एष यत् यदाग्रेण आग्रेणो यत् यदाग्रयणम् आग्रयणम् गृहीत्वा गृहीत्वा हिङ्करोति हिङ्करोति प्रजापतिः हिङ्करोतीति हिम् करोति प्रजापतिरेव प्रजापति प्रजापतिः एव तत् तत्प्रजाः प्रजा अभिप्रजा इति तस्मात् वत्सम् जातम् जातम् गौः गौरभि अभिजिघ्रति जिघ्रद्यात्मा आत्मापि वा एषः एष यज्ञस्य यज्ञस्य यद् यदाग्रयणः आग्रयणः इति सवने सवने अभिगृह्णाति गृह्णात्यात्मन् आत्मन्नेव एव यज्ञम् यज्ञगुंसम् सन्धनोति तनोत्युपरिष्टाद् उपरिष्टादा आनयति नयति रेतः रेत एव तत् तद्दधाति तथाद्यधस्तात् अधस्तादुप उपगृह्णाति गृह्णादिप्रजनयति नयत्येव एव तत् तद्ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति तस्मात् सत्यात् सत्याद्गायत्री सत्याद गायत्री कनिष्ठा कनिष्ठा छन्दसा छन्दसा कम् श्री श्री सर्वाणि सर्वाणि सवनानि सवनानि वहति वहतीति इत्येषः एष वै वै गायत्र्यै वत्सो यद् यदाग्रेणः आग्रेणस्तम् तमेव एव तत् अभिनिवर्तकम् सर्वाणि अभिनिवर्तमित्यभिनिवर्तम् सर्वाणि सवनानि सबलानि वहति वहति तस्मात् तस्माद् वत्सम् वत्समपाकृतम् अपाकृतम् गौः अपाकृतमित्यमाकृतम् गौरभि अभिनि निवर्तते वर्धत इति वर्धते ओष्ठकाण्डे चतुर्थः